यत्रापिभुजन्त्य स्वान् दश सदा सगतस्तदेकम् देवानाम् श्रेष्ठम् वकोषामपश्यम् तत्सु वाम् मित्रावरुणामधि तत्सु क्षीरः दुक्रेष्वाप्स्य हे नाम नो वामेकः पविरामा वर्त अधारयदम् पृथिवी उदद्याम् मित्र राजानामरुमहोधि गर्धय तमोषधे पिन्वदङ्ग अव दृष्टुम् आभावीजो भवन्तु यतरस्व युपायन् पर्वाचनो वर्तते वामुपसिन्धव प्रतिपक्षन्ति श्रुता मम दिम्बर्ध दुर्मीम् बर्गिरिभयजूषा रक्षमाणा कमस्वन्दा द्रुतरक्षाधिकर्ते मित्रा सा जैवस्वन्तः वक्ता विगत्ता सुकृते परस्प इन्द्रादा जेळस्वन्तः राजानाक्षत्तमृणीयमाना सहस्रस्थूनम् दृढः सह किरण्यरन्निगयोस्य स्थूना विभ्राजते दिव्या भद्रे क्षेत्रे निमिता दिल्ली वासने मम अधिगत्यस्य हिरण्यरूपमुषसोऽष्टावयस्थूरमुदीता सूर्यस्य आरोगतो वरुणमित्रकर्तमथश्चक्षाधे अदीतिम् दिदिम् च षड्वंशष्टं नातिभिधे सुदानो न क्षेत्रम् धर्म भुवनस्य गोपा तेना नो मित्रावरुणावशष्टं दृढा सन्तो चिगीवान्धस्यामा भद्रा नो अपि वादयमनाः ओ ओ त्यधर्मा परमेव्यो मणि यमत्रामित्रावरुणा वाजो यमम् तस्मै वृष्टिर्मधु मत्पिन्वते जिवः सम्राजापस्य भुवानस्य राजथो मित्रावरुणा विदधे स्वदृशा वृष्टिम् वाम् राधोऽमृतत्वमी महेद्या वा पृथिवी विचारन्ति तञ्जवा सम्राजा उग्रा वृषभादिवस्पती पृथिव्या मित्रावरुणा विचर्षणी चित्रेभिरभ्रैरुपादिष्टधोरथम् याम् वर्षयध्वसूरस्य मायया मायावाम् मित्रावरुणादिविसृता सूर्यो ज्योतिश्चरति चित्रमायूधम् समाभ्रेण वृष्ट्या गोहोदिविपर्जन्यद्रप्सा मधूमनन्दैरथे रथम् युञ्जते मरुदः सुभे सुखम् सुरो न मित्रावरुणागविष्टिषु रजांसि चित्रा विचारन्ति राजा दिवः सम् राजापयसानमुक्षतम् वाचम् सुमित्रावरुणा विरामतीम् पर्जन्यश्चित्राम्बादृषीमतीम् अभ्रावा सतमरुदस्तु मायजाद्याम् वर्णयत वरुणामारेपसम् धर्मानामित्रावरुणा विपश्चिदा रक्षेते असूरस्य माजया ऋतेन विश्वम्भुवनम् विराजधः सूर्यमाधत्तो दिभि चित्यम् रथम् वरुणम् वो रिषादमृजामित्रम् हा वामहे हरिम् व्रजेव बाह्वोर्जगन्वांसा स्वर्नरम् ु चेतुना प्रयम् तमस्मार्चते शेवम् हि चार्यम् वा विश्वा सुक्षासुजोवे यन्नो नवस्याम् गतिम् मित्रस्य यायाम् पथा अस्य प्रियस्य धर्मण्यहिम् दानस्य सश्चिरे युवाभ्याम् मित्रावरुणो भवम् देयामृच यद्धक्षये मघोनाम् स्तोत्रीणाम् च स्फूर्धसे आनो मित्रसु दीदिभिर्वरुनश्च सधस्थः स्वेक्षये मघोनाम् सखीनाम् च वृध्यसे इमन्नो येषु वरुणक्षत्रम् मृगश्च विवृथ वुरुणो राजा सातये कृतम् राजेश्वस्तजे उच्छन्द्याजता देवक्षत्रेरुषद्गविदम् सो मन्नहस्तर्धावदन्न राभ्रदा वर्चनानासम् यश्चिकेदश सुकृतद्देवत्रा सभ्रहीतु नः वरुणो दर्शतो मित्रो दावनते गिराः ता हि श्रेष्ठवर्चसा ता दत्तातीर्तावृथाने जने, जने। ता वामि या नो भासे पूर्वा उपभ्रुवे स च स्वेतुर्वाजाभिप्रदावने मित्रो अम्भोश्चिदा दुरुक्षया जगातुम् वर्णदे मित्रस्य हि प्रदूर्वादस्सु मतिरस्ति विधतः अयम् मित्रस्यावासिष्याम सप्रथस्तमे अनेन सस्तोत यः सत्रावरून शेषसः इमम् मित्रेमम् जनम् यथः सञ्जन यथः मा मघो नः गोपीथेन वरुष्यतम् आचीकिता न सुक्रतू देवो वर्तरि परोनाय ऋतपे सुीनः प्रयासेमहे सायक्षत्रमभिः कृतम् सम्यगसुर्या अमासाते अथ व्रते ममालूषाम् स्वा अन्नथायि दर्शतम् उर्वीङ्गव्योतिमेषा शातहौ यस्य सुष्ठतिम् दधृक् सोमैर्मनामहे अथायिका व्यायुवम् दक्षस्य पूर्भिरद्भुता विकेतुना जनानाम् चिकेथे भूतदक्षसा तदृतम् प्रेथिवीभरच्छ्रवयेषीणा यसा नापरम् प्रभ्वतिक्षरम् जयामाभि आयद्वामि यजक्षसा वित्रभयम् च सूरजा निजिष्टे बहुबाय्ये जिते महेश्वराद्ये बलित्वादेव निष्कृतमादित्याय जतम् बृहत् वरुढमित्रार्यमन्वर्षिष्ठम् शथनमासाथे आयद्योनिम् हिरण्यजम् वरुणमित्र सदथः धर्ताराचरणीनाम् यन्तम् सुन्दम् रीषादसा विश्वे हि विश्ववेदसोऽवरुणो मित्रो अर्यमा रतापदेव सच्चिनेपान्निमर्थ्यम् युषः ये हि सत्यारेतस्पृता लतावा नो जने जने सुनीता सदानाचक्रयः कोऽनुवाम् मित्रास्तुतो वरुणो वा तनूनाम् तत्सुपामेण ते मतिरत्रेभ्यजेण ते मतिः मित्राय गाय तवरूणाय विपागिरा मये क्षत्रावृतम् बृहत् सम्राजाय घृतयो मी मित्रशोभावरूणश्च देवा देवेषु प्रशस्ता दानः शक्तम् पार्थिवस्य महोराजो दिव्यस्य क्षत्रम् देवेषु धृतमृते न सपन्ते शिरम् दक्षमासा ते अद्रुवा देवो वर्धेते दृष्टिद्या वारीत्या बेहस्पती दानुमत्या गृहन्तम् गर्दमासा ते श्रीरोचनावरुणत्रीम् मृदोन्त्रीणि मित्रधारयथोरजांसि आवृथानामतम् यस्यानुप्रथमम् रक्षमाणापजुर्यम्पतीर्वरुणधेनवो वाम् मधुमद्भाम् सिन्धभो मित्रदुक्रे रजस्तस्सर्वणमादस्ति श्रीणाम् झषणानाम् रेताः रातर्देवीमदीति जोहवीमि मध्यन्ती न पु सूर्यस्य मित्रा रुणा सर्वता ते ले तोकाजतनयायसंयो भर्ता रारजसोरोचनस्योरादित्या दिव्या पार्थिवस्य नवामेव नम अमृता मीनन्त्यव्रतानि मित्रावरुणा ध्रुवाणि रुरुणा जिज्ञश्च वो नूनम् वाम् वरुण मित्रवंसीवां सुमतिम् ्यगद्रह्वामेषद्रा स्याम पादम् मा रुद्रा वायुभिः रुदत्रा देधाम् श्रुत्रा तुर्यापदस्योन्तनोभिः मा कस्याद्भुतक्रतो यज्ञम्भोजे मातनोभिः मा शेष सा मातरसा ृषा द सावरो न मित्र बर्गणाः उपे मञ्चारो मध्वरम् विश्वस्य हि प्राचेत सावरो न मित्र राजातः जीजानापि प्यतम् धियाः उपनः सुतमागतम् वरुण दाशुषाः अस्य सोमस्य पीतये आदिमित्रे वरुणे वयम् दीर्भ्योमो अत्रिवत् निबर्हिषि सततम् सोमापीतये ऋतेनस्थो ध्रुवक्षे मा धर्मजातयज्ञोमापीतये मित्रश्च नोपरूनश्च विषेधाम् यज्ञनिष्टये निबर्हिषि सतताम् सोमापीतये यदस्थपरामजयदर्बावत्यश्विना यद्वाहापुरुपूर्वभुजायदन्तरिक्षागतम् इहच्च पूर्व मा गुरूदंसांसि बिभ्रता परस्यायां यद्धि गोभुवे दुविष्ठ मा भुजे यीर्माण्यद्वपूषे वपुश्चक्रम् तदूषु वा मेना कृतम् विश्वायद्वामनुष्ठवे नानाजातावरेप साश्वे बन्धुदे यो आयद्वाम् सूर्यारथम् तिष्ठद्रघुष्यतम् सदा परी वामरुषावयो घृणावरन्त आतपाह युवोरत्रिश्चिकेतदिनरा सुम्ने न चेतसा कर्मम् यद्वामनेपसम्नासत्यास्ना भूरण्ड्यति उग्रो वाङ्को यः शृण्वे यावेषु सन्तनिः यद्वाम् संसोऽभिरश्विनात्रवर्तति मध्वा भूषु माधूजुवारुद्रासि शक्तिभिद्युषी यत्समुद्राधिपरिषधो भरन्दवाम् सत्यमिद्वावो अश्विना युवामा हर्म योभुवा कायामञ्जामहूत मायामह्ना म्रेणयत्त मा इमा ब्रह्मा निमर्धगास्विभ्याम् सन्तु सन्त मा या दक्षामरथावोचा मृहन्नमाह कोष्ठो देवावश्विनाद्य दिवो मावसु तच्छ्रवथो वृणम् वसूद्रिर्माभिसति हत्या कस्मिन्नाय तथोज देपो वा नदीनाम् स च कम्याकमा गच्छक्कमच्छायञ्जाथे रथम् कस्य ब्रह्मा निरन्यथो वयम् वा मुस्मसीष्टये पौरम् चेद्योतृतम् पौरपौरा यजिन्वथः यदीङ्भीतता तये सिंहमेव दृहस्पदे प्रत्यवानाजुजुजः युवा यदी कृमाध्वा अस्ति वा विगस्तोतास्पसि वाम् सन्दृशिः श्रिये नो श्रुतम् मागतमवोभिर्वाजिनीमसु को वा मद्यपूरूणामावौ नेमत्यानाम् को विप्रो विप्रवाहसावो यज्ञैर्वाजिनीमसु आवां रथो रथानाम् ज्येष्ठो यात्यश्विना पुनोचिरस्मय स्थिराङ्गूढो मर्त्येष्वा समूषु वाम् अधूयुवास्माकमस्तु च कृतिः अगर्वाचीनावितसा विभिशेनेवीनायद्धकर्हि यच्छुस्रोजातमिमम्भवम् अस्वी रोषु वाम्भुरः प्रञ्जन्ति सुमृजाः प्रतिप्रियतमृथमृगानम् वसुवाहनम् ोता वामश्विना वृषिस्तो मेन प्लिभूषिमाद्धीमवश्रुतम् गवम् अत्यायातमश्विना तु विश्वा अहं सना दस्रा हिरण्यवर्तनीजुषुम् नासिन्धु वागसावाद्धीमव श्रुतम् गवम् आ नो रत्नानि बिभ्रतामश्विनागच्छ तञ्जुवम् रुद्राहिरण् वसु माध्वीम श्रुतङ्गमम् सुष्ठु भो वासूरथे वा नित्याहीता उत वाङ्क गुरो मृगः पृक्षः कृणोदि वा पुषो माध्वीम श्रुतम्भमम् बोधिन्मा न सानथ्ये शिराह बलश्रुता विभिक्षवा नमश्वि नानि याचो अध्वजावि न माध्वीमश्रुतम् गवम् आवान्न राम नो युजासकृषितप्सवः वयो वहन्तपीतये सहस्नेभिरश्विनामाध्वीमश्रुतम् गवम् अश्विना वेह गच्छतम् न सत्या मा विवे तम् परिभक्तिर्यातमदाभ्यामाद्धीमश्रुतम्भवम् अस्मिन् यज्ञे आदाभ्या जरितारम् शुभस्पति अवश्यमश्विना इमम् गृणन्तमुपाभूषधोमा ध्वीम श्रुतम्भवम् अभूदुषारुषत्वसुरा निराधाय अयोजिमामृडन्वसूरथोदस्रामत्योमाध्वीम श्रुतम् जमम् आभात्यग्निरुषसामनीकमुद्विप्राणाम् देवयामायो अर्वाञ्चालनम् रक्षेहया तम्बीमिमाञ्जमश्विमोच्छ न संस्कृतम् प्रमेतो गमिष्ठान्ति नूनमश्विनोमस्तु देहा सा गाविष्ठा परत्यपत्यम् दा सुयतम्भविष्ठा उताया दम् गवे प्रातरह्नो बध्यन्ति न उदिता सूर्यस्य दिपानक्तमवसा सन्तीम् वेतिरश्विना इदम् युवाम् प्रतिविषा नोकजिमे गृहाश्विनेतम् दूरोणम् आनो दिवो ब्रेहतः पर्व दाताध्योजालविषमूर्ध्वहन्दा समस्वि गौरवसानोदने नोभुवा सुप्रणीतेकमेव आनो रजम्बरमोदीरान्यमृता सौभागानि रातर्यावानात्मसमाय जध्वम् पुराग्रज्रादररुषः पिबाधः यजमश्विना दसाधे प्रसंसन्ति गभजः पूर्वमायाः रातर्यध्वना हि नोतनसा यमस्विजाम पूर्वः पूर्वो जय मानोपनीयान् हिरण्यध्वम् मधुवर्माघस्रप्रक्षवहमागतो वर्तते वा मनो जमास्मिनामातरम् गायेनादियाथो दुरिदानि श्वा यो भूयिष्ठम् न सत्याभ्याम् विमेषजनिष्ठम् वित्तो रते विभागे स चो गमस्य पीबलच्छमीभिरनोर्ध्व सदमित्तु दुर्यात् समस्वि नो रमसानोदरे न म आनोदयम्बाहतमोद वीराणा विश्वान्यमृता सौभागानि अश्विनावेगच्छतम् ना, ना सत्कामावितम् हंसा वेव पत तमासुताम् उप अश्विना हरिनावेव गौराविमानुजवसम् हंसा वेव पत अस्यीनावाजिनीवसू जुषेधाम् यज्ञमिष्टये हंसा सुताप अत्रिर्यद्वामरोहन्नाधमाने पयोषा श्येनस्य जिजवसानुदागच्छ तमस्विनासन्तामेन विजीहेष्वनस्पतेजो निःसूष्यन् चा इव सुधमेव अश्विनाहवम् सप्तवध्रिम् च मुञ्चतम् भीता जनाधमाना निर्षाये सप्तवध्वजे मायाभिरश्विना युवम् वृक्षम् यथा वादः पुष्करणीम् समङ्गयति सर्वदाे वा ते गर्भयजतु निरैतु दशमास्यः यथा वातो यथा वनम् त्वम् च समास्य सहा वेहि जराजूना समासान्त स जानः कुमारो अधि मातरि निरयितु जीवो अक्षातो जीवो जीवन् च अधि महे नोऽबोधयोषो राजेदिवित्मदि यथा जन्नो अबोधयः सत्यस्र वसि बाह्ये सुजाते अश्वसूते यासु नीथे सौ चद्रथे व्यौच्छो जुहि दर्दिवः सा व्युच्छसि यशि सत्यस्र भसि वाह्येषु जाते अश्व सूनुते सा नो॑ अद्या भरद्व सूर्योच्छाजुहि दर्दिवः योऽव्यौ्छसी यशि सत्यस्र भसि वाह्येषु जाते अश्व सूनुते अभियेत्वाभि स्तोमैर्गृणन्ति वह्नयः मघैर्माघोलिषु श्रुयो दामनन्दन्तस्तु रात यः सु जाते अश्व सूदृते यच्छिद्धिते गणाजिमे क्षदयन्ति मघत्त ये परिचिद्भष्टयो दधर् ददातो राधो अक्राजन्सु ऐषु धा वीरवद्य सभुषो मघो निसूरिषु येनो राधांस्य कृ मघमा नो अराधयश्चाते अश्वा सूरुते तेभ्यो द्युम्नम् बृगद्य सभुषो मघो न्यावाह येनो राधांस्य गव्या भजन्त सूनयस्तु जाते अश्व उत नो गोमातीरिष आवाहा दुयि दर्दि वः साकम् सूर्यस्य रश्मिभिः शुक्लैस्सो चभिरक्तिभिः सुजाते अश्व सूनुते योच्छा अपाह नेत्वा यथा रूपम् तपादि सूरो अर्चुषा सुजाते एतावद्वे दूषस्त्वम् भूयो बाधातु मर्हसि या स्तोतृभ्यो विभावर्युच्छन्ति न प्रमीयसे सुजाते अश्वसूरुते युद्या बालम् बृहति मृते नृतावरीमरुणप्सम् विभाति देवी वृषसं स्वरावहन्तीम् प्रतिविप्रासो मतिभिर्जनन्ते ेषा जनम् दर्शदा बोधयम् भीरुम् भदीयात्यग्रे जगाद्रथा ब्रीहति विश्वमिन्मोढाज्योतिर्यच्छत्यग्रे अह्ना येषा गोभीररुणेऽभिर्युजानाश्रे सन्तीरयुमप्रायुचक्रे अथो गो रदन्ती सुय देवी भूरुष्टुता विश्ववा राभाति येण व्ये ने भवति द्विमर्हाविष्कृण्वाना तन्वम् पुरस्तात् हृदधामन्वेत् साधु प्रजानति वलति सोऽ येषा शुभ्राणतन्वोऽपिधानोद्यैवस्मादि द्विषे नोस्तात् अमद्वेषो बाध मानातमाम् जुषा यो दूहिता ज्योतिषागात् एषा प्रतिजीजुभिताधिगो नृण्यो षेव भद्राविरेणीते अप्साः ज्योन्वरे दासु देवार्याज्योतिर्जुवजुः पूर्वसागः इञ्जते दे वनगुदयुञ्जते धिजोभिप्राभिप्रस्य बृहतो विपश्चिताः विगोत्रा देवयुनाभिदे गजिन्मही देवस्य स विदुःपनुष्टुतिः विश्वारूपाणि प्रतिपुञ्जते कविः प्रासामी भद्रम् जिपदे चतुष्पदे इनागमक्षत्सविरावरेण्यो न प्रजाना वृषसो विराजति यस्य प्रजा नमन्मञ्जयजयद्देवादेवस्य महिमा नमोजसा यः पार्थिवानिमे सजेतसोरजांसि देवस्य वितामाहि त्वना उत यामितस्त्री नीरोच नो चूर्यश्च रश्मिभिः स्वमुच्छसि उत रात्रीमुभज तत्परीयस उत मित्रो भवसि देवधर्माभिः उदेशेषे प्रसभश्च त्वमे गिदुतपूजा दे भवसि देवजामाभिः उदेतम् विश्वम्भुवनम् विराजसि स्यावा स्वस्ते समितस्तो मा मानसे तत्स विदुर्वे भीमहे वयम् देवस्य भोजनम् श्रेष्ठम् सर्वधा तवन्तु रम्भगस्य धीमहि अस्य हि स्वयासस्तरम् दविदुः कश्चन प्रियम् न मिलन्ति स्वराज्यम् स यत्नानि दाजुषे सुवाति स भगाः तम् भागञ्चित्र मीमहे अध्यानो देवसवितः प्रजावत्साभिः सौभागम् परा दुष्वप्नु वा विश्वानि देवसवितर्दुरितानि परासु वा यद्भद्रान्तर्नासु वा अनागसो अधीतये देवस्य सवितुसवे विश्वामानि आविश्वदेवम् सत्पादिम् सूक्तैरज्जा वेणीमहे सत्यस वंसवितारम् ययिवे बुभे अहनि पुनयेदप्रायुच्छन् स्वाधीर्देवस्य पिता य इयिमा विश्वा जातान्या श्रावयति श्लोकेन न च स्वाजीसविता अर्चावद तपसम् येभिराभिस्तु हि पर्जन्यमसा विवास कनिकदृषभो जीरदा लूरेतो दधात्योषाधीषु गर्भम् वृक्षाह्न विदहन्ति रक्षसो विश्वम् विभाज भुवनम् महाबलधाति ीडते वृष्ण्यावतो यत्पर्जन्यस्तन जह्नन्ति दुष्कृताः स्वाङ्गवेक्षितान्नाविर्दूतान् क्रीणुते वर्ष्या आ दूरात् सिंहस्य स्तनता उदीरते यत्पर्जन्यः कृणुते वर्ष्या अन्नभा न्तिपदयम् यदि विद्युदमुदोषाधीर्जिहते पिन्वते स्वाहास्मै भुवलाय जायते यत्पर्जन्यः पृथिवीरे दशावधि यस्य व्रते पृथिवीरम् नामीति यस्य व्रते सभवजर्भूरिति यस्य व्रतमोषाधीर्विश्वरोपासनः पर्जन्य महि शर्मा यच्छ जिवो नोः वृष्टिम् मारुतो रीध्वाम् प्रबिम्बत वृष्टो अश्वस्य धाराः अर्वामेते नस्तनयत्रमेश्यपो नेषन्मसूरः पितानाः अभिक्रन्नस्तन जयद्भवाधा गुदन्वता परीया रथेन त्रिधिम् सुकर्षविषीतन्यम् चम् समाभवन्तु द्वतो निपाताः षिम् दस्यन्तरस्तात् घृते नद्या वा पृथिवीव्यम् धिसुप्रभाणम् भव त्वद्भ्याभ्याः यत्पद्यकनिकृतस्तनजह्ंसी दुष्कृताः प्रतीदम् विश्वम् मोदते यत् किञ्च अवरुणेर्वर्णमुदुग्रेर्भाजा गर्धम् वाण्यच्चेतबाहु अदीज नवोषधीर्भोजनायुनः प्रजाभ्यो विदो मनीषा ललिरिपर्वतानाम् छिद्रम् बिभर्णि पृथिवी प्रजाभूमिम् प्रवत्पति मह्ना जनोषी महि सोमासस्त्वा विचारिणि प्रतिष्ठोभम् त्यक्तुभिः ेषम् वेरुपस्यर्जुनि दृढादिजा वनस्पति अभ्रस्य विद्युतो दिवो वर्षम् जिकृष्टयाः वर्षम् तु ते विभावरि जिवो अभ्रस्य विद्युताः रोहम् तु सर्वबीजान्यवब्रह्मद्विषो जिः ्रदम् राजे बृहदच्चागभीरम् ब्रह्म प्रियम् वरो राजः श्रुताय जघानसभिधर्मोपस्तिरे पृथिवीम् सूर्याय वणेषुव्या अन्तरिक्षन्तता न वा जमर्वत्सु भय उश्र्यासु हृत् सुम् वरो नो अप्सु अग्नि सूर्यमदधात्सो भवद्रौः नीचीनम्बरो न कबम् सम्प्रसर्जरोदासी अन्तरिक्षम् तेन विश्वस्य भुवनस्य राजाय बन्दवृष्टिर्भ्यो नत्यभूम उन्नत्यभूमिम् पृथिवीमुद्याम् यदा दुग्धम् वरो नो वाह्याचित् समभ्रेण वसतपर्वदासस्तविषीयन्तः श्रतयन्तवीराः सुरस्य श्रुतस्य महीम् मायाम् वरुणस्य प्रवोचम् मानेनेवदस्थिवाम् अन्तरिक्षे वियो ममे पृथिवीम् सूर्येण इमा मोरु कवितपस्य मायाम् महीम् देवस्य न किरा दधर्ष एकम् युद्रा न प्रणन्देणीरासिञ्चन्ती रवणयः समुद्राम् हर्यम्जम् वरुण मित्र्यम् वासखायम् वासमिभ्रातरम् वा वेषम् वा नित्यम् वरुणारयणम् बालयत्सीमाकश्च कृमाशिश्रथस्तत् हितवासो यद्रीर्गुरुवाघासत्यमुदयन्न विद्म सर्वा ता विश्वशिथिरेव देवाधाते श्याम वरुणप्रिया सः इन्द्राग्नेयमव सबुभावाजेषु मत्यम् ऋत्सप्रभेदसिद्धुम्ना वाणीरिवत्रितः जागृसु दुष्टराजावाजेषु स्रवाय्या जावम् च दर्षणी रवीन्द्राग्निताह वामहे त योरितमवत्सवः सिग्मादिव्यम् मघोनोः रजिद्रुणागमश्चेषामिन्द्राग्निहा दुरस्य लाजासो विद्वान्सा गिर्वाणस्तमार्हन्तामनुद्योन्मर्ताय देवापदभा अर्हम् काचित् पुरो दधेयम् देव देवा पर्वते दे। हादिभव्यम् सोष्यम् घृतान्नभूतमद्रीभिः कालोरिषश्रवो गृहजम् गृणत्सो दिधृतमिषम् गृणत्सो दिधृतम् प्रवो महे पदयोयम् तु कृष्णा वे वरत्ता जय गिरिजाजयुत् प्रसर्धाय प्रयज्य वे सुखादे सपसे, भन्तरिष्टयेधुरिम् मृदाय समासे प्रजे चाचाहिनाय चनुस्वयम् प्रविद्मना ब्रुवदायजाभारते क्रत्वा तो मरुतो नाधिषेतो रामह्नातरे रामसृष्टासो नायः जे जो गतश्रुण् गिरा सुवा सुजामारुत् गजे गामिरीसधस्तो नः स्व विद्युद प्रस्पन्द्रा सोधुनीरा स च क्रमेव गतो स्वादधिक्ष्णुभर्मिष्पर्धसोऽपि माहसो जिगादिसे वृथो दृढि स्वनो नवो माङ्ग्रेजयदृशाविषये मयामारुत् येना सन्धनिस्वरो जिषस्थारस्वानो हिरञ्जया स्वायुधा स युष्मिनाः अपारो वो महिमावृद्धवधस्त्वेषम् सवो वत्त्वे भजामारुत् स्थादा रोगि प्रसीदौ तन्दृशिस्तन तेन पुरुष्यतायः सुक्वाम् सोनाग्नजाः ते रुद्राधः सुयोुम्ना आवन्त्वे भजामारुत् दीर्घम् ऋतु प्रदे सद्मपाम् ज्येणामध्वेष्वा महः सर्धाम् सद्भूतैरताम् मध्ये न मरुतो गातुमेत नः श्रोताहम् जगरे वयामृत् विष्णोर्महः समन्यभोजुयोतनस्मद्रथोडाञ्चि स नृतः गन्ता नो यज्ञम् यज्ञयात्सविश्रोताह वामरक्षये भजापर्वतासोऽव्यो मनिजूयन्तस्य प्रचेत स्यादुर्धर्त वो यिलः हिरण्यवर्णाम् करणीम् सुवर्णरजतस्वराम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः ेदो लक्ष्मीमलपगामिनी यस्याम् हिरण्यम् विन्दे जङ्गामस्वम् मुरुढा नाम् अश्वपूर्वाम् रथमध्याम् हस्तिनाथप्रबोधिनी श्रियम् देवीमुपह्वजे श्रीर्मा देवीर्जुनृता ोऽस्मिलाम् हिरण्यप्राकारा मार्द्राम् ज्वलन्तीम् दृप्ताम् दर्पयन्ती श्रियाम् पद्मवर्णाम् ताम्रो पद्पजे श्रियम् चन्द्राम् प्रभाताम् यशथा ज्वलन्तीम् श्रियम् लोके देवदृष्टामुदारा ीम् शरणमहाम्प्रेन ताम् त्वामृणे आदित्यवर्णेतपसोऽधिजातो वनस्पतिस्तवृक्षोश बिल्वः तस्य फलानितपसानुसन्तु माजान्तराजाश्च बाह्यालक्ष्मीः उपैषु माम् देवकीर्तिश्च प्रातर्भूतोऽस्विराष्ट्रेऽस्मिन् कीर्त्यवृद्धिम् ददातु मे श्रुतिपादाबलाम् ज्येष्ठामलक्ष्मीम् नासयाम्यहम् अभूदिमसमृद्धिम् च सर्वान्निर्नृत मे गृहात् गन्धद्वाराम् दुराधर्णाम् नित्यपुष्टाम् करीषिणी ईश्वरीम् सर्वभूतानाम् तामिहो बह्वजे श्रियम् मनसः काममाहूयम् बालः सत्यमसीमहि वधूनाम् रूपमन्नस्य मयि श्रीश्वयताम् यशः कर्तवे न प्रजाभूता बहि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपस्रजन्त स्निग्धानिचिक्लीतमस मे गृहे निष देवीम् मातरम् श्रियम् वासय पुष्करिणीम् पुष्टिम् सुवर्णाम् जेवमालिनी सूजाम् हिरण्मयीं लक्ष्मीम् जातवेदो भावह आद्राकर्णीम् जष्टिम् पृङ्गलाम् पद्मबालिनीम् चन्द्राम् हिरण्मयीं लक्ष्मीम् जातवेदो महावः ताम् मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो स्वान् बिन्देजम् पुरुषानहम् यस्सु च प्रयतो भूत्वा जुजादाज्यमन्वहम् सूक्तम् पञ्चदशर्चम् च श्रीकामस्सतम् जपे पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भावे अन्ने भजसि पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायी गोदाजी धनदायि महाधने धनम् नेदाम् देवी सर्वकामांश्च देहि पद्मानने पद्मविपद्मपा पद्मप्रियेजे पद्मदला जदाक्षि विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व पुत्र गोत्रधनम् धान्यम् हस्य स्वायगवेरथम् जाना भवति माता आयुष्पन्तम् करोतु मे धन वाग्यर्धनम् वाजर्धनम् सूर्योदनवसो धन लेन्द्रो बृहस्पतिर्वरुणम् धनमश्रुते वैरतेजसोमम् विभ सोमम् विपदवृत्रः सोमम् धन स सोभिनो मह्यम् ददातु सोविनाः न क्रोधो भवन् जिकृत पुण्यानाम् भक्तानाम् श्रीशुभोक्तम् जपेत् सरसिजनिलजे सरोजहस्ते धवलधराम् सुखगन्धमाल्यशोभे भगिगरि वल्लभे फलोज्ञे त्रिभुवन भूजिहरि प्रसीद मह्यम् विष्णुपत्रीम् क्षवाम् देवीम् माधवीम् लक्ष्मीम् प्रियसखीम् देवीम् नमामि यच्छु गमल्लभा महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्महालक्ष्मी प्रचोदयात् श्रीवन्वर्जस्व मायुष्यमानो अज्ञमाविधा शोभमानम् महीयते धान्यम् धनम् वशम् लाभं लाभम् सदसंवत्सरम् दीर्घवायुः विश्वेश्वराय नमः प्रथमोपो दास्य धिय अभवो मृगन्न करुणात् दुष्टरे दुषः विश्वस्ते सह शेषः ध्यै ेभ्यस्तन् तम् बालप्रथमं ते भजन्तो बहु राजेचितजन् सो अनुग्मन् कृते भयन्तम् बहुभिर्वसव्यैस्वेरयम् जाग्रुवाम् स अनुग्मन् दुषन्तमाद्यन्तर्सम् बृहन्तम् पपावन्तम् विश्वहादिवांसम् वदनुहस्य नभसाव्यन्तश्रवश्रवश्रवापन्नवृत्तम् नामानि चिद्धिरे यज्ञिजानि भद्रायान्तेर्णयन्त संहृष्टौ त्वाम् बद्धम् दक्षिणयः पृथिव्याम् त्वाम् राजाबुभया सोजनालाम् भो भादा रणे चेत्यो भोन्मानुषाण्यः स प्रियो विक्ष्वाद्योता मन्त्रो निष सा दिया भयम् दमादिवाम् समुपज्ञाधो नमः सा सदेम तन्त्वाभयम् शुद्धो को न व्यामग्ने सुम् नाजवायी त्वं दे भयङ्काः त्वम् विशो अनजो देद्या नो दिवो अग्ने बृहतारोचलेन विशाम् कविम् विश्वजम् सस्वादीनाम् विदोषलम् मृषभन्तर्षणीनाम् यम् तम् पावकम् राजन्दमग्निम् च जलम् राजीनाम् स्वग्नयी चेत समेधमर्थोजस्तार समिधा हव्यदाहजिम् य आहु जिम्बलिवे धानमोऽभिर्विश्वे स वामादधेत्वोदाह अस्माभू देवै महे मे धेव नमोऽभिरग्ने समिधोदहव्यैः ो नोदहसो गेर्भिरुचैराते भद्राजामतो आयस्तथन्तरोसा श्रवोभिश्च श्रवस्यास्तरुद्रः बृहद्भिर्वा जैस्तविरेभिरस्य रेतरम् विभाहि श्रुवद्मिद्धे क्यस्ते भूरि गोकायतनयाय पश्वः ूर्विहति रे अघा अस्मे भद्रासो असाने सन्तु गुरोण्यग्ने पुरुधा त्वाजा वसु निराजन्वसुधा देहस्याम् गुरोणि हि त्वे पूर्वासञ्चे वसु वित्वे भद्रोऽपि वाचयमनाः ओ